यज्ञपारे शिष्टम् अपि त्वदीयम् मन्थि ग्रहव्यति करे भवता यथोक्तम् गव्येन सोमः त्वयैः साध्यात्रिसप्तमोनयो विभजन्ति यज्ञा सर्वेषुष्वपि भवान् अविशेष स्वा राजानामद्भरविधो वयमाम अग्निं प्रकाशयतुषं कर रुद्रवतं मन्त्रस्त्वम् अग्नयेति वा तदनन्तरो वाजन्वतीक्षितिरिति विशेषणस्य ज्ञानं प्रतिपमपनेतुम् एमौ प्रकर्षम् योहिणे भवति देव तदा त्वदीया तस्यां त्वदेकवेशयौ विषमाक्ष दृष्टौ मन्त्राविमो तदिह यज्ञपतित्वं ईश स्पष्टं त्वदेकविषयं प्रति यान्ति धीरा हित्रा कुमारमेव भृत्यमेवश्वरेण शिष्यं ये देशगुरुणेव गुणादिकेन अग्निं त्वया कृत विशेषणमुचिवांसौ मन्त्राविक्मोगमय करमं प्रकर्षम् संहिता वदति मेधपतिं भवन्तं राजानमध्वर विधेरय मात्रः त्वसूक्तमात्रगणम ृहीतशक्तिः त्वत्कम् पुरा मरणतस्तनयित् नु कल्प आकारणं परमकारुणिक ब्रुवाणमन्त्रोऽयमावयिति या वदुपक्रमा शिवधर्मसूक्ते हे भीमो शिशंकर मृगो नो निदर्शनं ते ते जोभिरोचलित सूर्य सहस्रकल्पैः अक्रोधनस्मितमुखोऽपि निजानु भवा आपादस्तनुभृता नृपतिर्भयाय अभ्युद्यतं गिरीशभद्रमधि महे त्वा त्वद्धिव्यत पवन भो कृशानषक्रागा मृत्योश्च तधिकार मृतस्त भयहेतु भावः अोरा शिवा च भगवन् उभयीतनोस्ते घोराविष्यते भवतं भोपास्यमाना अन्याभिष्जनकृतान् रुच अशीवात्मनोपी हि घोरोप यान्ति चिकेचितारं प्रीणान्ति शङ्करक्षिवां चमका नो वाकैः होमस्य यत् तव भवन् यो भये विमद्राः विष्णु प्रजापति पुरान्दरपूर्वकेषु वाजादितुल्यमितरेष्वपि दैवतेषु आशंसितेषु चमका परे भवन्तशब्द मावोः योक्तं न मानयितुं येश्वर सन्निधो ते देवान्तराणि महता एव अन्तर्धिमध्वरविधो तदपि क्षमाणाः त्वत्कर्मसीं निपरिषेचनम् आचरति आत्मान्तराणि पशव परतन्त्र भावतन् पशुपते पतिरेश्वर त्वम् आत्मानमोपनिषदा प्रवदञ्चनीशम् ईशं भवन्तमुभयो उभयं स्वभावः प्तयेव सतिशं करपाशुपते कस्मै वरेण्यवरणं कृपणोचितं ते चोदनया गृहीता कल्पंती यती म पे वंद देवार्थ वादा जनादपि वारणीयः पत्पाशोपत्य वर्णप्रतिलम् भक्त्वादः लब्धुं वरितुमथवा कथमेकयिवरान् बहून् महेश्वर शक्यते तव अङ्गै स्थिरेभिरिति रूपमनेश्वर दे भूरिणीतानि च भुजङ्गम मालभा काना आद्वैदिकायदशनं तदमोघमागो भावोपपन्नमनसां पदुपासकाना पुंसामोघमशनम् भगवन् रुवाणगमन्त्रोयमन्तरिति नः प्रतिभाति मूलं प्राग्भुक्तमर्जनविधे प्रनोवासरं ते के पितृमतो मारुतस्तुवानाः त्वामानन्ति भरतं नटनाभियोग त्वयि शेषिके सति खलु व्यपदेश साधारणेन भरणेन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 कथितोऽसि वीरग किं साभिधातृपदसन्निधिना ज्वरार्तं रुद्रे ते नाम परिषङ्ख्यपरावपन्तः मन्त्रे इति मङ्गलवाचिदृष्टं देवे शरोद्रियपदं पुनरावपन्ति शाखासुषं कर सहस्रतयिषु साम्ना आं तव न केवलमानुभावः सर्वात्मना अधिपतेः अविशेषदस्ति देवव्रतादिशो गणा कतिथानुभावाः दे कन्दं विनायकमुभावपिते कुमारो सर्वै गुणैः पितरमेव निदर्शयन्तौ सामोपगाय मोपगाय मृजा सम्प्रीणयन्ति शिव सामविधौ यथोक्तम् मल्यदपोह्य पुंसा ध्यातोव्यमेकमभिधाय शिवाङ्करं त्वा वक्तव्यमल्यदनपेक्ष्य विमोक्षयेतुम् च वेदः अ मामनन्ति तव शङ्कर धर्मधार अध्वर्यवत् सहजसिद्धतया स्वसारम् आथर्वणा यदुपसृष्टतया भवतम् ध्यातव्यमाहोः आपकाय पिता महादे केकश्रुतोऽसि परमेश्वर स मन्त्रायया व्यपदिंशति पुनः पुनस्त्वा तस्या प्रभावमदिवां मनसं शिवाया काष्ठेन वस्तु मननो कमलासनोपि एकं मुखं त्रितयमेश्वरलोचना चत्वारिदों शिविशदं वपुरद्भुतं ते नित्यं तदेव भजता उपकार पोस्ते कृतिं वसानमुमया सह धर्मदारैः आराधयन्ति खलु पर्वणि साक मेधे विभिः अनन्यभावाः मेड्वां समन्तविनिवेशित मेढुषेकम् अन्तर्जयन्तमजरामरविग्रहं त्वा त्वद्वारपं दयितया नाथमपि नाथ यजन्ति धन्याः पत्न्या समो सह गणे सगवासुताभ्या तथा परिषदा विषमेक्षण त्वाम् अद्य तिथिनिशा मुखमर्चयन्तः पापं तरन्त्यपि जयन्ति महेश मृत्युम् मात्रा भवन्ति विरला विबुधान्तराणा सद्भावयेव शिव दर्शित शक्तयस्ति त्वमरूपगुणवर्णन लब्धवर्णा मशक्यमावगमि यक्तया स्ते शक्यं गुणा गणयितुं गणनायदे स्यात् भौमेषु पांशुषु विना तव देव माया वेदस्वयं भवतु वा तव वा प्रणीतिः सर्वप्रमाणमविहाय गृह्णाति लोकः तत्तत्प्रवक्तृगुणदर्शिततारतम्यम् अन्यत् प्रमाणमविरोधिनि वेदवाके वेदप्रमाणमिति सङ्ग गिरमाण एव दिव्यं तवागममवैदेजनप्रमाणं त्वद्यानवाक्यविषयोपयिकैपदार्थैः आमूर्धमाकलितविग्रहमाचमूला ध्यानं यथा भवति तत् विषयो याद्र त्वम् यादृगुणश्च भगवन् अधिकारिवर्गः सर्वाणि तानि भवदागमतं हिताभिः कल्पैरिवाध्वरविधेरुपपादिता तिम् अध्वनितारतं यम् श्रेष्ठाद्वपारगमनं च फलं ब्रवीति मन्त्रोध्वनाम् इति महेश्वरनृह्यकारः पित्राकुमारमुपनीय वदन्य वाक्यम् कल्पप्रमाणमृषिभिर्यधि नः प्रणीताः किं न प्रमाणमृषिणा महता महर्षि शक्यं न वक्तुम् अपरिग्रह दोषितानि तत्रान्तराणि कर्तृमन्ति आचक्षतेयं ऋषिम् आशविदस्तपोभिः एकैकमन्त्रदृशभेश्वरवेदराशेः द्रष्टारमस्य निखिलेन निजानुभावात् अल्या ऋषि नतिमर्षिमतो विदुस्त्वा उक्तं प्रधानपुरुषेश्वरमेव साङ्ख्यैः आख्यायपाश पशुपति अभिधानभेधाे शिवसङ्गिरता के प्रत्यक्षवेदविहितं प्रथितं पुराणैः बोधायनेन मुनिना बहुश प्रणीतं सर्वार्थदर्शनपरैः अपि गृह्यकारैः यज्ञोपवीतमिव अर्चनं ते ोपब्रह्मकपुराणवचः प्रपञ्चैः आघोष्यते विशमनेत्र समर्चनते तन्त्रैरलं तदुपब्रह्मक वेदमूलैः क्वात्या सौव्यपेक्षम् वेदार्थनिर्णयविदो हि पुराणमङ्गम् निर्णीतवेदविषया स्मृतयो भवन्ति आतश्रुतेरिव सकाशे नालं लं प्रकाशयितुमात्मबलावलेपम् मूलश्रुतेरनुपलं भक्पराहतायाः स्तूतीवया न भवति स्वरसात्प्रमाणम् प्रत्यक्षमे विहितं यजनं त्वदीयम् तस्यात् प्रतेरपि किमिच्छति दृष्टिपातम् पौर्वाणिकानुपदिश नियमान्यदेत अभ्यर्चनं मनुरवोचत देवतायाः तद् किं पुनस्तव महत्यसि देवता त्वम् मृगे च पत्न्या समं सह वृषेण वृषेन्द्रकेतो युष्मध्वलेनुपदिशन् त्रिदशाकाशे अभ्यर्चनं भवनकल्पन बोधायन कथितवान् न्तराणि परिहाय महत्सु नित्यम् विज्ञानयोगविभवेषु महीयसे महियसेय। देवो महान् अभिहितो सिक्ततकपदिल् नाम त्वदीयमिदमाङ्गिरसा निरहुः भेधातवार्चनविधिस्तरुणेन्दुमूले कामाय कश्चिदपरो दुरितक्षयाय अप्रग्निहोत्रमुभयं वयमामनामः स्वर्गाय यद्भवति यद् दुरितं यत् yeah. ब्राह्मणस्त्वमसि नागवतानिकाये तुभ्यं निवेदितमभोज्यं यति स्मरन्ति पुचिष्टमीश्वरविशिष्टमपि द्विजाना भूमौ निखेयमथवाम्भसे मज्जनीयं त्वं ब्राह्मणस्त्वदुपधावनमेव कार्यम् तद्ब्राह्मणे स्त्वदितरे न भवन्त्युपास्याः न ब्राह्मणानवर पदं प्रमाणम् उत्कर्षतः परिहरन्त्यपकर्षतो वा कावासना वासना भवति कस्य कृते न वेद्मः यद् दीक्षितस्य पतितस्य चतुल्य प्रत्यादिशान्तिमुनयकमनीयमन्नम् नलशौण्डिकाना गो ब्राह्मण ज्वलनदीक्षितयोषितां च स्पर्शकया भवति वासनया निषितः विहिता विशुदिः ज्यानमाहुरपि दीक्षितम् अग्निकल्पम् भोज्यानमेव कृतराजपरेक्रयं तम् शङ्खास्थि स्थिते वचनमत्र परायणनः अब्राह्मणे क्षुदपधातकमस्तु भोज्यम् यद्देवतान्तरनिवेदितमोक्तमन्नम् तद्ब्राह्मणैरपि किमीश्वर वैश्वदेवे हार्यो तेन, तेन देवान्तरैरशितमुक्तमनङ्गशासिन् अश्नन्ति चेदनशिते न बलिं हरन्तः आशैकदेशविहितो बलिरन्यथासन् नालं फलाय विपरितफलाय तेषा ब्राह्मणमीश्वर पुराहतवान भिक्षाटनं विमृषतः प्रतिभामात्रम् यत्पञ्चमे शिरसि पुष्पसमं निकृते yoshama hurakta ha नशानं न शाणं पाणौकपालशकलं न विलोकितं ते नालं वते शवशिरस्तव केतुयष्टौ भैक्षं न साप्त भव सकलं प्रदाता यत्कालभैरवकृतं पतनियमेनः किंतेनते भवते ते भवति भैक्षमथा विवृत्तिः तन्मध्यपातिनिवधे विभूतान्तरस्य निर्वेदमातरसि किर्णो भवानजश्रत्वाशुपद्यमावृणोदमरान्तरेभ्यो िक्षां भवान् कृतयत् परमेश्वरोऽपि चोद्यं तदे तदुभयं परिहर्तुकामो मल्ये बृहस्पतिरपि प्रतिपतिशोऽन्यः ब्रह्मासि विष्णुरसि सर्वमसीति य आस्तामुपासनविधिं कथयन्ति मूढा तद्देवतान्तरनिकषक् निगोगन पित अल्पबो धे अद्वैतम् आगमशिरोभिरुपासनाया उक्तं तवेति परमार्थतया न वाच्यं गरोडमान्त्रिकक्योरणीकम् तादात्मभावनमथापि विषं प्रमाष्टिः कि यद् ब्रह्म पञ्चमशिरो लवनापदानं यद् ब्रह्मणा च हरिणा च विमर्गणं ते यद्वातयोर्जनयितारमधिमहे त्वा रविमूढधियामत्सह्यम् सोमे लतात्मनि महेश्वर गौणवृत्या विष्णोरवादिजनकत्वमृ च त्वय्येव तद्भवितुमर्हति मुख्यभृत्या नेन्द्रेण पङ्कज भवेत् नितरा मुरारौ अन्योन्यतो यदि भवेदहमेश्वरस्या त्वं चाहमेश्वर किमत्र नियामकं नग को वा विपर्यसितु मर्हतित्वस्तु भवदाज्ञयापि एकं तवाप्य सुकरं तदुदाहरामो जातेन भाव्यमरान्तरपत्वयापि अभ्यर्थितोपि महेश महर्षिदारैः अन्तर्जितस्त्वमसि गर्तगर्भवासग आचावतीर्णमुरशासन गर्भक्वासग चाचेदुदाहरणमेश विमश नियः गर्भे वसामि परिवेष्ट्य जरायुणाहम् मासान् बहूनिति महेश्वर कस्य कामग आ, आ, आ, आ, आ। इच्छा इच्छापि नूनमनुयाति पुरा कृतानि शुभ शङ्कर इच्छा अवतार वचनानि भारतादो नारायणस्य गुणवादमुदा हरति विधातारं कश्चिद् भजति भजते कश्चन हरिं सुरान्यानन्ये जगति स कला सर्वविधयग तथापि त्वद्भक्ते शिव शिव यदा चर्मवदिति श्रुतो मन्त्रो देवान्तरभजनदैन्यं न सहति शशे पुष्पं नभसि मृगतृष्णासु सलिलं प्रसूतिर्वाद्यायामनवधिम् अदायो तनुभृता विमुक्तिर्वादेवान्तरभदनल पशुपते न शक्यं न सम्भापयितुमपि नभिन्नानह विमृशता उद्गमयितुम् शिलानैवो नेतुं प्रभवति शिला अन्तकरिपो जनित्वा मृत्वा जगति परिव सारभ्रमणभयबादस्तु शरणम् ैव पाशुपतपादपां सुभिः स्तोत्रकर्मणि न तस्य मे उपपद्यते त्वयि शपितं प्रसन्नं भुञ्जानयेव तदहं झटिति प्रबुदः स्वप्नसमाधिरिति अभिन्नः स्तोत्रमेतदवधाय कृणता अर्थमस्य निखिलेन जानता ग्राह्यमल्यदपि न अवशिष्यते ज्ञेयमन्यपि वा पञ्चाशदुत्तरशता श्रुतिसूक्तिमाला भोगावळे भुजगराज मनोहरा ते वेदेषु भक्तिमापरागम वैदिकेषु तन्त्रेषु भक्तिमतुला त्वयि च प्रसूते त्वे देषु भक्तिमतुलां त्वये